नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे कुमारीविलापोनामाष्टमोऽध्यायः श्रीनारायण उवाच अथ श्रीरुक्मिणीनाथो वैकुण्ठं गतवान् मुदा तत्र गत्वाधिमासं तं तत्रत्यवसतिं प्राप्य मोदमानो भवत्तदा मासानामधिपो विष्णुना सह द्वादशस्वपि मासेषु मलवासंवरं प्रभुः विधायमनसा तुष्टु बभूवप्रकृतिप्रियः श्रीकृष्ण उवाच जानीहं राजशार्दूल तपोवनमुपागतैः भवद्भिर्दुःखसम्मग्नैर् नादृतः पुरुषोत्तमः वृन्दावनकलानाथ वल्लभः पुरुषोत्तमः प्रमादाद्गतवान् मासो भवतां काननौकसाम् यस्माभिर्नैव विज्ञातो भयद्वेषसमन्वितैः गाङ्गेयद्रोणकर्णेभ्यो भयसन्त्रस्तमानसैः कृष्णद्वैपायनादाप्त विद्याराधनतत्परे इन्द्रकीलं गतवती बिभत्सौरणशालिनी तद्वियोगपरिक्लिष्टैर्न ज्ञातः पुरुषोत्तमः युष्माभिः किं प्रकर्तव्यम् अदृष्टमवलम्ब्यताम् अदृष्टं यादृशं पुंसां तादृशं भासते सदं। अवश्यमे सदा अवश्यमेव भोक्तव्यम् अदृष्टजनितं फलम् सुखं दुःखं भयं क्षेमम् अदृष्टात् प्राप्यते जनैः तस्मादृष्टनिष्ठैश्च भवद्भिः स्थीयतां सदा अथा परं प्रवक्ष्यामि भवतां दुःखकारणं सेतिहासं महाराज श्रूयतां मनमुखादहुः श्रीकृष्ण उवाच आसीत् काचित् महाभागा पूर्वजन्मनि सुन्दरी मेधाविद्विजमुख्यस्य पुत्री जाता सुमध्य कालेन गच्छता राजन् सञ्जाता दशवार्षिकी रूपलावण्यलिता नयनापाङ्गशालिनी चातुर्यगुणसम्पन्ना पितुरेकैव पुत्रिकां वल्लभातीव तेनासौ चतुरा गुणसुन्दरीं लालिता पुत्रवन्नित्यं न कदाचित्प्रलम्भिता साहित्यशास्त्रकुशलां नीतावपि विशारदां तन्माता स्वर्गता पूर्वं पित्रा सा पोषिता मुदा पार्श्वस्थालि सुखं दृष्ट्वा पुत्रपौत्रसुखस्पृहा तर्कयन्ति तदा बाला मामेवं च कथं भवेत् गुणभाग्यनिधिर्भरता सुखदस्सत्सुता कथम् एवं मनोरथं चक्रे दैवेन ध्वंसितं पुरा किं कृत्वा किं विदित्वाहं कमुपास्ये सुरेश्वरं किं वा मुनिमुपातिष्ठे किं वा तीर्थमुपाश्रये मम भाग्यं कथं सुप्तं भर्ता कोऽपि पण्डितोऽपि पिपिता मूढो मम भाग्यवशादहो विवाहकाले सम्प्राप्ते नदत्ता दत्ता सदृशे वरे अध्यक्षाहं सखे मध्ये कुमारे दुःखपीडिता नाहं स्वामिसुखाभिज्ञा यथा चालिगणो मम मम भाग्यवती माता कथं स्वर्गं गता पुरा एवं चिन्ता कुला बाला मनोरथमहोदधौ निमग्नामोहसलिले शोकमोहोर्मिपीडिता मेधावी ऋषिराजोऽसौ विचचारमहीतले कन्यादाननिमित्तं च विचिन्वन् सदृशं वरं तादृशं वरमप्राप्य निराशः स्वमनूरथी स्वता स्वकीयभाग्याभ्यां भग्नसङ्कल्पपञ्जरः अवापदैवयोगेन ज्वरं तीव्रं सुदारुणं स्फुटत्सर्वाङ्गसम्भिन्न तापज्वालासमाकुलः श्वासोच्छ्वाससमायुक्तो महादारुणमूर्छय प्रस्खलन्निपतं भूमौ मदिरामत्यवद्वृषम् आगच्छन् एव भवनं सपपात धरातले यावत्सुता समायाता पितरं भयविह्वला तावन्नुमूषु सञ्जातो भूसुरस्तामनुस्मरन् भावेनार्थबलेनैव सहसा जातवे पथुः कन्यादानप्रसङ्गोऽ महोत्सवविवर्जितः अथ प्राचीनगारहस्त्य कृतधर्मपरिश्रमात् संसारवासनां त्यक्त्वा हरौ चित्तमधारयत् सस्मार श्रीहरिं तूर्णं मेधावीपुरुषोत्तमम् इन्दीवरदलश्यामं त्रिभङ्गललिताकृतिम् राशेष राधारमण प्रचंड, दोर्दण्ड दूराहत निर्जरारि अत्युग्रदावानलपानकर्तः कुमारिकोत्तारितवस्त्रहर्तः श्रीकृष्णगोविन्द हरे मुरारी, राधेश दामोदर दीननाथ मां पाहि संसार समुद्रमग्नम् नमो नमस्ते रसिकेश्वराय इति मुनिवचनं निशम्य दूतां झटिति समायजुरामकुन्दलोकात् तदनुमृत मुनिं करे गृहीत्वा चरणचरोरुहमीयुरीश्वरस्य प्राणोत्क्रमणमालोक्य हा हेति सारुदत्सुताम् अङ्के कृत्वा पितुर्देहं विललापसुदुःखिताम् कुररीव चिरं सा तु उवाच पितरं बालं जीवन्तमिव विह्वला बालोवाच हा हा पिता कृपा सिन्धो आत्मजानन्ददायक कस्याङ्के मां गतु शिवैष्णवं पुरं पितृहीनां चमाम् तात। तात् को वा सम्भावयिष्यति भ्राता नैव बन्धुश्च न माता तपस्विनी भोजनाच्छादने चिन्तां को मे तात् करिष्यति कथं तिष्ठाम्यहं शून्ये वेदध्वनिविवर्जिति आश्रमेते ते मुनिश्रेश्च अरण्यैव निर्जने अतः परं मरिष्यामि जीवने किं प्रयोजनम् असम्पाद्यैवत्सल क्व गतोऽसि पितस्तात् इहागच्छ तपोनिधि वाणीं वद कथं तूष्णीमवस्थितः उत्तिष्ठोत्तिष्ठहेतात् चिरं सुप्तो सीसाम्प्रतम् इत्युक्त्वा श्रुमुखी बाला विललापमुहुर्मुहुः मुक्तकण्ठं रुरोदार्ता कुररीव सुदुःखिता तत्सुता रुदनं श्रुत्वा विप्रास्तदवनवासिनः अतीव करुणं को रुदित्यस्मिन् स्तपूवनि मेधा ऋषेः सुताशब्दं शनैर्निश्चित्य तापसा ससम्भ्रमा समाजग्मुर्हाकारसमन्विता आगत्य ददृशुः सर्वे सुताङ्कस्थमृतं मुनिं ततः सन्दुहृदुः सर्वे मुनयः का नौकसः सुतोच्छङ्गाच्छवम् ङ्गाच्छवं नीत्वा श्मशाने शिव सन्निधौ अन्त्येष्टिं विधिना कृत्वा ततः कन्यां समाश्वास्य सर्वे ते कन्यापि धैर्यमालम्ब्य यथाशक्त्यकरोद्ययम् इत्यौर्ध्वदेहिकविधिम् प्रणिधाज पित्र्यं पुत्री निवासमकरोच्च तपोवनेऽस्मिन् सा विव्यथे पितृज दुःखदवाग्निदग्धा रम्भेव वत्स्मरणात् सुरभीव बाला इति श्रीबृहन्नारदीये पुराणि पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे कुमारीविलापो नामाष्टमोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु